श्रीहरये नमः अथ पञ्चमोऽध्यायः राजोवाच भगवन्तं हरिं प्रायो न भजन्ति आत्मवित्तमाः तेषामशान्तकामानां कां निष्ठा अविजितात्मनः समस उवाच मुखबाहुरुबाधेभ्य पुरुषस्साश्रमैः सह चत्वारो जज्ञिरे वर्णां गुणैर्विप्रधाय प्रथ येषां पुरुषं साक्षात् आत्मप्रभवमीश्वरं न भजन्त्यभजा स्थानात् भ्रष्टा पतन्त्यदह दूरे हरिकधा केचित् दूरे चाच्युतकीर्तनाः स्त्रियशूद्रातयश्चैव ते नु च हरेव प्राप्ता पधान्तिकं श्रौतेन जन्मना तापे मुह्यन्ते आत् आम्नायवादिनः कर्मणि अकोविधा स्तब्धा मूर्खा पण्डितमानिनः वदन्ति चाटुकान् मूढायया माध्वा गिरोत्सुकाः कामुका अहिमन्यवः दाम्पिकामानिनः पाप विकसन्ति अच्युत प्रियान् वदन्ति तेऽन्योन्यम् उपासितस्त्रियोम् गृहेषु मैथुन्यपरेषु चाशिष यजन्त्यसृष्ठान्न विधानदक्षिणम् वृत्यै परं घ्नन्ति पशून् अधत्विधः श्रियाविभूत्याभिजनेन विद्ययां त्यागेन रूपेण भलेन कर्मणा जातस्मये नान्दति यः सखेश्वरान् सथोपमन्यन्ति हरिप्रियान् कलाः सर्वेषु शश्वतनुभृत्सु अवस्थितम् यथा कामात्ममभीष्टमीश्वरं वेदोपगीतं च न शृण्वथे मनोरथानां प्रवधन्ति वार्तया लोके व्यवायामि शमद्य सेवा नित्यास्तु जन्तोर्न हि तत्र शोधन व्यवस्थितिस्तेषु विवाहयज्ञ सुराग्रहै आसु निवृत्तिरिष्ठा धनं च धर्मैकबलं यतो वै ज्ञानं स विज्ञानं मनुप्रशान्ति गृहे युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति धुरन्तवीर्यं यद्ग्राणभो विहितसुरायास्तथा पशो आलभनं न एवं व्यवाय प्रजया नरत्या इमं विशुद्धं न विधुः स्वधर्मम् ये त्वनेवं विदो सन्थस्तधब्धा सदभिमानिनः पशून् द्रह्यन्ति द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरं मृतके सानुभन्तेऽस्मिन् बद्धस्नेकापतन्त्यधः एकैवल्यम् असम्प्राप्तां ये त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते एत आत्महनुषन्ता अज्ञाने ज्ञानमानिनः शीतन्यकृतकृत्या वये कालध्वस्तमनोरथाः हित्वा त्यायास गृहापत्य सुहृत् श्रियः तमो विशन्त्यनिच्छन्तो वासुदेव पराङ्मुखाः राजोवाच कस्मिन् काले स भगवान् किं वर्णगीतृशो नृपिः नाम्नावाकेन विधिना पूज्यते तदिहोच्यता करभाजन उवाच कृतोद्वापरम चलिशु केशवानीताकारो ना ना नान ना विधिजे कृते शुक्ल चुर्बूर्जिलो वललाजिनोपीताक्षा बिभ्रदंडकमंडलू मनुष्यास्तु तथा शान्तान् निर्वैरासुहृदः समाः यजन्ति तपसा देवं समेन च दमेन च हंसस्सु पर्णो वैकुण्ठो धर्मो योगेश्वरो ईश्वरः पुरुषो व्यक्तः परमात्मेति गीयते त्रेतायां रक्तवर्णासो चतुर्भाहुस्त्रिमेकलः किरण्यकेशस्त्रय्यात्मा शुक्स्रुवाद्युपलक्षणः तं दतामनुजा देवम् सर्वदेवमयं हरिं यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः विष्णोर्यज्ञः पृश्निगर्भान् सर्वदेव उरुगाय इतिर्यथे द्वापरे भगवान् श्यामः पीतवासानिजायुधः श्रीवत्सादिभिरङ्कैश्च लक्षणै उपलक्षितः तं तदा पुरुषमर्थ्यां महाराजोपलक्षणं यजन्तीवेततन्त्राभ्यां परं विज्ञासवो नृप नमस्ते वासुदेवाय नमःणाय च प्रद्युम्नाय अनिरुद्धाय स्तुभ्यं भगवते नमः नारायण ऋषये पुरुषाय महात्मने विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः इति द्वापर उर्वी स स्तुवन्ति जगदीश्वरं नानातन्त्रविधानेन कलावपि यथाशृणु कृष्णवर्णं द्विषा कृष्णं साङ्गोभाङ्गास्त्रपार्षधं यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ध्येयं सदा परिभवग्नम् अभीष्टदोऽहं तीर्थास्पदं शिवभिरिञ्चिनुतं शरण्यं भृत्यार्तिकं प्रणत बालभवाब्धिबोतम् वन्दे महापुरुषते चरणाविन्दं त्यक्त्वा सुधुस्त्यजसुरेप्सितराजलक्ष्मी धर्मिष्ठ आर्यवचसा यदकातरण्यं मायामृगं दयितयेप्सितमन्नधावत् वन्दे महापुरुषते चरविन्दम् एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः मनुजैरिज्यते राजन् श्रेयसां ईश्वरो हरिः कलिं सभाजयन्त्यार्या गुणज्ञासारभागिनः यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते न ह्यतः परमो लाभो देहीनां भ्राम्यतामिह यतो विन्देत परमां शान्तिं नश्यति संश्रुतिः कृताधीषु प्रजा राजन् कलाविच्छन्ति सम्भवं कलौ कलु भविष्यन्ति नारायणपरायणाः क्वचित क्वचित महाराज द्रविडेषु च भूरिशः ताम्रपर्णीनदी यत्र कृतमालापयस्विनी कावेरी च महापुण्या प्रदीची च महानदी ये पिबन्ति जलं तासां मनुजा मनुजेश्वर प्रायो भक्ता भगवती वासुदेवे मलासयाः देवर्षीभूताप्तनृणाम् पितृणां न किं करोनायं सर्वात्मनाय राजन् सर्वात्मना शरणं शरण्यं गतो मुगुन्तं परिहृत्य स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः विकर्म यच्चोत्पतितं कथञ्चेत् नारदौ उवाच धर्मान् भागवतानित्थं श्रुत्वा तमिथिलेश्वरः जायन्ते यान्मुनीन् प्रीत सोभात्याह्यभूजय ततोऽन्तर्धतिरेसिद्धान् सर्पलोकस्य पश्यतः राजा धर्मान् उपातिष्ठन् अवापपरमां गतिं त्वमप्येतान् महाभाग धर्मान् भागवधान् श्रुतान् आस्तिकश्रद्धया युक्तो यास्यसे परं युवयो खलु जगत् पुत्रतामगमत्य भगवान् ईश्वरो दर्शनालिङ्गनालापैः सयनासनभोजनैः आत्मा वां पावितः वैरेणयं नृपतय शिशुबलपौण्ढ्र साल्वादयो गतिविलाश विलोकनाध्यैर्ध्यायन्त अनुरक्त धियां मापत्यबुद्धिम् अकृत कृष्णे सर्वात्मनीश्वरे मायामनुष्यभावेन गूटैश्वर्ये परे व्यये भूपारासुरराजन्यं हन्तवे गुप्तये सताम् अवतीर्णस्य निर्वृत्यै यशोलोके वितन्यते श्रीसुकौवाच एतच्छ्रुत्वा महाभागो विस्मितः देवकी च महाभाग जगतोर्मोहमात्मनः इतिहासमिमं पुण्यं धारयेत्यः समाहितः सविधूयेकसमलं ब्रह्मभूयाय कल्पते इति श्रीमद्भगवते महापुराणे एकादशस्कन्ते पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमगराजकी जयी